नवकञ्चलोचनगञ्चमुखर कञ्चपद कञ्चारुणं न्णा। श्रीराम जय राम श्रीराम जय राम श्रीराम जय राम, राम। श्रीराम गणितमित च विनवनील निरल सुन्दरं पठपीठमानौ तटित रुचि सुचिनौमि जनक सुता भज दीनबन्धुदिनेश दानव दैत्यवंशनिकङ्गनं रघुनन्द आनन्दकम् स्थिरमुकुटकुण्डलतिलकचारु उदारङ्गविभूषणम् अजाणु भुजशर वदति तुलसीदास शङ्कर शेषमुनिमनरञ्ज